सर्गः सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदम् वचस्तदा यथर्ष शृङ्गस्त्वानीतो तन्मे निगदितम् सर्वम् शृणु मे मन्त्रिभिः सह रोमपादमुवाचेदम् सहामात्यः उपायो निरपायोऽयमस्माभिरभिचिन्तितः ऋष्यशृङ्गोवनचरस्तपः स्वाध्यायसंयुतः अनभिज्ञस्तु नारीणाम् विषयाणाम् सुखस्य च इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिः पुरमालाययिष्यामः क्षिप्रम् चाध्यवसीयता गणिकास्तत्र गच्छन्तु रूपवत्यस्वलम् श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम् पुरोहितो मन्त्रिणश्च तदा तकृश्च तथा वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशर्महत् आश्रमस्यापि दूरेऽस्मिन् यत्नम् कुर्वन्ति दर्शने ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनः पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् न तेन जन्म प्रभृति दृष्टपूर्वम् तपस्विना स्त्री वा पुमान्वा यच्चान्यत्सत्त्वम् नगरराष्ट्रजम् ततः कदाचित्तन्देशमाजगामयदृच्छया विभाण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः ताश्चित्रवेशाः प्रमदा गायन्त्यो मधुरस्वरम् ऋषिपुत्रमुपागम्य सर्वा कस्त्वम् किम् वर्तसे ब्रह्म ज्ञातुमिच्छामहे वयम् एकस्त्वम् विजने दूरे वने चरसि शंसनः अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः हार्दात्तस्य मतिर्जाता आख्यातुम् पितरम् स्वकम् पिता विभाण्डकोऽस्माकम् तस्याहंसुत औरसः ऋष्यशृङ्ग इति ख्यातम् भुवि इहाश्रमपदोऽस्माकम् समीपे शुभदर्शनाः करिष्येवोऽत्र पूजाम् वै सर्वेषाम् विधिपूर्वकम् ऋषिपुत्रवचः श्रुत्वा सर्वासाम् मतिरास वै तदाश्रमपदम् द्रष्टुम् जग्मुः सर्वास्ततोङ्गणाः गतानाम् तु फलञ्चनः प्रजगृह्या पूजा सर्वा सुत्सुका ऋषे भीता शीघ्रं तो गमनायमति दधु अस्क्यामानी हे ईज गृहा प्रभद्रं ते भक्षवि ततस्तास्तिंग सर्वा हर्ष सन्विता मोदका प्रदत स्त भक्ष्या तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते अनास्वादितपूर्वाणि वने नित्यनिवासिना आपृच्छ तदा विभ्रम् व्रतचर्यान्निवेद्य च गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः अस्वस्थहृदयश्चासीद्दुःखाच्च परिवर्तते ततो परेद्युस्तम् देशमाजगामसवीर्यवान् विभाण्डकसुतः श्रीमान्मनसा चिन्तयन्मुहुः मनोज्ञायत्रता दृष्टा वारमुख्यास्वलङ्कृताः दृष्ट्वैव च ततो विप्रमायान्तम् हृष्टमानसाः उपसृत्य ततः सर्वास्तास्तमोचुरिदम् वचः एह्याश्रमपदम् सौम्य अस्माकमिति चाब्रुवन् चित्राण्यत्र बहूनिश्चस्युर्मूलानि च फलानि च तत्राप्येष विशेषेण विधिर्हि तासाम् सर्वासाम् हृदयम् गमम् गमनायमतिञ्चक्रेतम् स्त्रियः तत्र विप्रेतस्मिन् महात्मनि ववर्षसहसा देवो जगत्प्रह्लादयस्तदा वर्षेणैवागतम् विप्रम् तापसम् स नराधिपः प्रत्युद्गम्यमुनिम् प्रह्व शिरसा च महीम् गतः अर्घ्यम् च प्रददौ तस्मै न्यायतः सु समाहितः वव्रे प्रसादम् विप्रेन्द्रान् मा विप्रम् मन्युराविशे अन्तःपुरम् प्रवेश्यास्मै कन्याम् दत्त्वा यथाविधि शान्ताम् शान्तेन मनसा राजा हर्षमवापसः एवं साम सुपूजिता ऋष्यशंगो महातेज शातया सहभार्यया, भार्य इशे वाल्मीकिये आदिकाव्ये, बाशम सर्ग